नारायणीयं दशकम् 81. वन् मल्टिमीटर्स् स्निग्धां मुग्धां सददमपितां लालयन् सत्यभामां यादो भूय सह खलु तया याज्ञसेनीविवाहं पार्थप्रीत्यै पुनरपि मना गास्थितो हस्तिपुर्यां शक्रप्रस्थं पुरमपि विभो संविधायागतो भूः भद्रां भद्रां भवदवरजां कौरवेणार्ध्यमानां त्वद्वाचादामहृदगुहना मस्करी शक्रसूनुः तत्र क्रुद्धं बलमनुनयन्प्रत्यगास्तेन चक्रप्रस्थं प्रियसखमुदे सत्यभामा सहायः तत्र क्रीडन्नपि जयमुना कूलदृष्टम् गृहीत्वा ताम् कालिन्दीं नगरमगमः प्रीणिताग्निः भ्रातृत्रस्ताम् प्रणयविवशाम् देवपैतृष्वसेयीम् राज्ञां मध्ये सपदि जहृषे मित्रविन्दामवन्दीम् सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां बद्ध्वा सप्तापि च पृषवरान् सप्तमोक्तिर्निमेषात् भद्रान्नामप्रददु रथते देवसंदर्धनाद्यात्सोद्याम वरद सा पैतृश्वसेसेयी पाद्यकृतलव मवृधा लक्ष्यम चिशरमृथ मद्रक तव सम्लभास्त मध्ये शुश्रोधत्वं सुरपदि गिरा भौमदुच्छेष्टितानि स्मृताया दम्पक्षिप्रवरमधिरूढस्त्वमगमो वखन्नङ्गे भामामुपवनमिवारादिभवनं विभिन्दन् दुर्गाणि त्रुडिद पृतना मुरुधास्यो निधपुरम् मुरस्त्वाम् पञ्चास्यो जलधिवनमध्या स चक्रे चक्रेण प्रदलिदशिरा मङ्क्षु भवता चतुर्दन्तैर्दन्ता वलपदिभिरिन्धानसमरं श्रर्धाङ्गेन चित्वा नरकमगरोऽस्तीर्णनरकम् स्तुतो भूम्या राज्यम् सपदि भगद्धस्य तनये गजञ्चैकम् दत्त्वा प्रजिखायिध नागान्निजपुरिम् कलेनाबद्धानाम् स्वगतमनसाम् षोडश पुनःसहस्राणि स्त्रीणामपि धनराशिं च विपुलम् भौमापाकृतकुण्डलम् तददिदेर्धातुं प्रयादो दिवम् शक्राद्यैर्महिदसमं दयितया दत्तक्रिया दत्त ह्रिया चित्ंद्रम्यागमस्तु श्रीमद दोष ईदृश य दिव्याख्या मेवाकृता कलपद्रुम सत्यम भवन भु विसृजन द्वअसहस्रदोषास्वी प्रत्यार विहित बहुवपुर्लयन के आश्चर्यान्नारदालोकितविध गदिस्तत्र तत्रापि गेहे भूय सर्वास् सु कुर्वन् सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द